नारायणीयं दशकं फोर् मीटर् रथोद्धता दा। कल्यदां मम कुरुष्वतावदीं कल्यदे भवदुपासनं व्यया स्पष्टमष्टविधयोगचर्यया पुष्टयासु तव तुष्टिमाप्नुयाम् ब्रह्मचर्यधृटतादिभिर्यमैराप्लवादिनियमैश्च पाविताः कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः पारमन्तरनुचिन्त्यसन्ददं प्राणवायुमभियम्य इन्द्रियाणि विषया दधापहृत्यास्महे भवतु वासनो मुखाः अस्फुटेव पुषिते प्रयत्नतो धारयमधिषणां मुहुर्मुहुः तेन भक्तिरसमन्दरार्द्रदामुद्वहेम भवदङ्घ्रिचिन्तकाः विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशाद अश्रमं मनसि चिन्तया महेध्यानयोगनिरदास्त्वदाश्रयाः ध्यायदां सकलमूर्तिमीदृशीमुन्मिषन्मधुरदा हृदात्मना सान्द्रमोदरस्वरूपमान्तरम् ब्रह्मरूपमयिते वभासते तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक आश्रिताः पुनरतः परिच्युदावारभे महिजधारणादिकम् इद्धमभ्यसननिर्भरोल्लः स त्वत्परात्म मुक्द सुखकल्पितोत्सवाः मुक्तभक्तकुलमौलिदां गदाः सञ्चरेम शुकनारदादिवद त्वत्समाधिविजयेतु यः पुनर्मंशुमोक्षरसिखक्रमेण वा योगवश्यमनिलं षडाश्रयैरुन्नयत्यजः सुषुम्नया शनैः लिंगदेह स्यजन्नधो लीयि परे निराग्रह ऊर्धकुतुमूर्धद साधमे कर्णये अग्निवासर वलक्ष वलक्षणुषा चबत प्राप्त रविपदं भवत्परो मोदवान् ध्रुवपदान्दमीयते आस्तितो धमहरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ईयदे भवदुपाश्रयस्तदा वेधसः पदमधः पुरैव वा तत्र वा तव पदे धवा वसन् प्राकृतप्रलय यदि मुक्ततां स्वेच्छया खलु पुरा विमुच्यते संविभिद्य जगदण्डमोजसा तस्य चक्षुदिपयो महो निलद्योम सत्प्रकृति सप्तकावृतीः तत्तदात्मकदया विशंसुखी यादिते पदमनावृतं विभो अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पदे सच्चिदात्मगभवद्गुणोदयानुचरन्दमनिलेशपाहि मां सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविंद गो